ओन्नो वातः पवताम् मादरि श्वा शन्नस्तपतु सूर्यः अहानिशम्भवन्तु न शगम् रात्रिः प्रतिधीयताम् शभुशानोऽव्युच्छतु शमादित्य उदेतु नः शिवा नः शन्त सुमृडीका सरस्पती मा देव्यो वसन्दृशी इडायैवास्त्वसि वास्तु मद्वास्तु मन्तो भोजामावास्तो अश्चित् स्मह्य वास्तु स भोजाद्यो अस्मान् वेष्टियम् च भजन् विष्पः प्रतिष्ठासि प्रतिष्ठावन्तो भोजास्म वा प्रतिष्ठायाश्चित्स्मक्यः प्रतिष्ठः स भोजाद्योस्मान्वेष्टियम् च भजन् विष्मः आवात वाहि भेषजं विवात वा हि यद्रपः स्वगम् हि विश्वभेषजो देवानाधूत ईजसे द्वाविमौ वातौ वात आसिन्धोरापरावतः व्रक्षम् मे अन्य आवातु परान्यो वातु यद्रपः यदो वात ते गृहे मृतस्य निधिर्हितः ततो नो देहि जीवसे ततो नो देहि भेषजम् ततो नो मह आवहवात आवातु आवा भेषजम् शम्भोर्मजोभूर्नो हृदे प्रण आयोगम् शितारिषत् इन्द्रस्य गृहोऽसि प्रपद्ये स सहजन्मे अस्थितेन भूः प्रपद्ये भुवः प्रपद्ये सुभः प्रपद्ये भूर्भुवः सुभः प्रपद्ये वाजुम् प्रपद्येना आर्ताम् देवताम् प्रपद्येष्मानमाखणम् प्रपद्ये प्रजापतेर्ब्रह्मकोशम् ब्रह्म अन्तरिक्षम् म उर्वन्तरम् बृहदग्धजः पर्वताश्च जजावातः स्वस्त्या प्राडापानौ मृत्योर्मा पातम् प्राडापानौ वावाहासिष्ठम् मजिमेधां मयि प्रजां मयि अग्निस्तेजोदधातु मजिमेधां मयि प्रजां मयीन्द्र इन्द्रियन्दधातुमजिमेधां मयि प्रजां मयि दधातु द्युभिरक्तुभिः परिपातमस्मानरिष्टेभिरश्विनासौ भगेभिः तन्नो मित्रो वरुणो मामहन्ता मदिति सिन्धुः पृथिवी उत द्योः कजा नश्चित्त सत्यो मदानाम् मगम् हिष्ठो मत्सदन्धसः दृढाचिदारुजेवसो अभीषुणः सखीनामविता जरितॄणाम् शतम् भवा स्यूतिभिः वयः उपसे उपसेतुरिन्द्रम् प्रियवेधा ऋषजो नाधमानाः अपद्भान्तमो ऊर्नु हि मूर्ध् चक्षुर्मुग्ध्यस्मान्निधजेव बद्धान् शन्नो देवीरभिष्टज आपो भवन्तु पीतये शञ्जोरभिस्रवन्तु नः ईशानावार्याणाम् क्षयन्तिश्च ऋषणीनाम् अपोयाचामि भेषजम् सुमित्रा न आप ओषधजः दुर्मित्रास्तस्मै भूजा सूर्यो अस्मान्वेष्टियम् च वयम् विष्मः आपोहिष्ठापयोभुवस्ता न ऊर्जे दधातन महेरणायचक्षसे यो वः शिव भा जगते हनः तस्मा अरङ्गमामभोजस्य क्षगा गजिन्वथा आपो जनगथा च नः पृथिवी शान्ता साग्निना शान्ता शुचकम् शमयतु अन्तरिक्षकम् शान्तम् तद्वाजु दा शान्तम् तन्वेषान्तकुम् शुचकुम् शभजतु यौ शान्ता साधित्येन शान्ता सा मे शान्ता शुचकम् शभजतु पृथिवी शान्तिरन्तरिक्षगुं शान्तिर्द्यौ शान्तिर्दिश शान्तिरवान्तरदिशा शान्तिरग्निः शान्तिर्वाजुशान्तिरादित्यशन्तिश्चन्द्रभाश्चान्तिर्नक्षत्राणि शान्तिरापः शान्ति रोषधज शान्तिर्वदस्पतज निर्गौ शान्तिरजा शान्तिरश्वश्च शान्तिः पुरुषश्चान्तिर्ब्रह्म जान्ति शान्तिर्ब्राह्मटश्चान्तिश्शान्ति देवशान्तिश्चान्तिर्भे अस्थु शान्तिः प्रजाहकुम् शान्त्या सर्वशान्त्या वह्यन्ति पदे चतुष्पदे च शान्तिम् करोभि चान्तिर्बे अस्थु शान्तिः ये हश्रीश्चघ्रीश्च धृतिश्च तपो मेधा प्रतिष्ठा श्रद्धा सत्यम् धर्मश्चैता निोत्तिष्ठन्त मनोत्तिष्ठन्तु मामाजश्रीश्च धृतिश्च तपो श्रद्धा सत्यन्धर्मश्चैतानि वामाः उदायुषा स्वाजुषो दोषधीनादुम् रसेनोपर्जन्यस्य शुष्मेणोदस्थामवृतागुम् अनु तर्चक्षुर्देवहितम् पुरस्ता आच्छुक्रमुच्चरते पश्येम चरदश्शतम् जीवे वजरदश्शतन्दा वजरदश्शतम् मोदा वजरदश्शतम्भवा वरदश्शतकम् सृणवा वजरदशतम् रभ्रभा वजरदश्शतमजीतास्याम शरदश्शतञ्ज्योक्षसूर्यम् दृशे य उदगान्महतोऽर्णवाभ्राजमानः शरीरस्य मध्यात्समा वृषभो ब्रह्मणश्चोदन्यसि ब्रह्मण आडीस्थो ब्रह्मण आवपनमसि धारितेजम् पृथिवी ब्रह्मणा बहीधारितवेदेन महदन्तरिक्षन्दि वन्दाधार पृथिवीगम् दा सदेवाञ्यदहम् मेधामनीषैवाविशतागम् समेचीभूतस्य भंव्यस्यावरुद्ध्यै सर्वमाजुरजाणि सर्वमाजुरजाणि आभिर्गेभिर्यततो न ऊन माप्याजय हरिवो वर्धमानः यदा स्तोदृभ्यो महिगोत्रा रुजासि भोजिष्ठभाजो अध ब्रह्म प्राभाम तन्नोपाहासीत् शान्तिः शान्तिः